श्रीमद्भागवत् महापुराणं दशमस्कन्ध अथ चतुः पञ्चाशत्तमोऽध्यायः शिषुपाल के साथी राजाओं की और रुक्मिकी हार तथा श्रीकृष्णरुक्मिणी विवाहं श्रीशोकुवाच इति सर्वे सुसंरब्धा वाहानारुह्य दंशिताः स्वै स्वै बलै तानापतयालोक्य यद्वाणीकयूथपाः तस्थोत्तस्सन्मुखाराजन् विस्फुरध्यं स्वनसूषिते अश्वपृष्ठे गजस्कन्धे रतोपस्थे च कोविदाः मम च सर्वर्षाणि मेघा आदेष्वपो प्रत्युर्बलं सरासारे छन्नं वीक्ष सुमध्यमाम् श्रवीडमेक्षत्तत्तद्वक्त्रं भयविह्वलोचनाम् प्रहस्य भगवानाहमाश्म भैर्वामलोचने मीनङ्क्षद्य अधुनैवैतत् तावकैशात्रवं बलम् तेषां तद्विक्रमं वीरां यत्सङ्कर्षणादयः अमृष्यमाणा नाराचै जग्नुभयगजान् रथान् पेतुविशिरांसि रथिनां न विश्वनां यजिनां भुवि शकुण्डलकिरीटानि सोष्णीशाली च कोटिशः हस्ताशासि गति श्वासा करभा उर्वोघ्र अश्वाश्वतरणागोष्ठखरमृतशिरांसि च हन्यमानबलानि का विष्णुर्भि जयकाङ्क्षिभिः राजानो विमुखा जग्मुचरासन्धपुरशराः शिशुपालं समभ्येत्य हितदारमिवातुरं नष्टत्विषं गतोत्साहं स्वस्यद्वदनमुग्नवन् भो भो पुरुषशार्दूलदोर्मनस्यमिदं च ज यथा दारुमयि योषिन्नृत्यते कुहुकेच्छया एवंश्वरतन्त्रोऽयम् ईहते सुखदुःखयोः सौरे सप्तदशाहं वै संयुगानि पराजितः तयोविंशतिभिः सैन्यै जज्ञ एकमहं परं तथाप्यहं न शोचामि न प्रहिष्यामि कर्हि कालेन दैवयुक्तेन जानन् विद्रावितं जगन् अधुनापि वयं सर्वे वीरयूथपि यूथपाः यूथ पराजिता फल्गुतन्त्रै यदुभि कृष्णपालितैः दिप्यो जिज्ञोरधुना काल आत्मानुसारिणीं तदा वयं विजेष्यामो यदा काल प्रदक्षिणः प्रबोधितो मित्रैः सद्योगासानुगपुरम् रतशेषा पुरस्तेऽपि यू शंशम् पुरं नृपाह दुक्मे तु राक्षसोद्वाहं कृष्णद्वेषं सहंसु पृष्ठतोऽन्मगमद्कृष्णम् अक्षोहिण्यावृतो बलीम् रुक्म्यां मनशेष संरब्ध शृण्वतां सर्वभुभुजां प्रतिजज्ञे अहत्वा समरे कृष्णम् प्रत्युह्य च रुक्मिणीं कुण्डिनं न प्रवीक्ष्यामि सत्यमेतदब्रवीमिवह इत्युक्त्वा रथमारुह्य सारथिं प्राह सत्वरः चोदयास्वान् यतः कृष्ण तस्य मे संयुगं भवेत् अद्याहं निश्चितैर्बाणे गोपालस्य सुदुरुमतेः न्येष्ये वीर्यमदं ये ते येन स्वसा मे प्रसमं हिता विकथमानकुमतीरीश्वरस्याप्रमाणवे रथेनैकेन गोविन्दं तिष्ठ तिष्ठेत्यथाह्वयन् धनुर्विक्रस्य सुदृढं जग्ने कृष्णं त्रिभीसरैः आहचात्र क्षणं तिष्ठ यदूनां कुल्पांसनम् कुत्रयासी सुसारम्भे मुषित्वा श्वाक्षु बद्भवी हरिषेद्य मन्दं मन्दव नायिन कुचियोधिनः यावन्नमेहतो बाणे शैधामुञ्चदारिकां त्वन्कृष्णो धनिष्ठित्वा षड्भिर्विव्याधिरुक्मिणीम् अष्टभिश्चुरो वाहान् द्वाभ्यां श्रुतं धजं त्रिभिः सचान्यन्धनुराधाय कृष्णं विव्याधपञ्चमी तैताडितसरौघैस्तूचिक्षेदधनुरच्युतः पुनरन्यदुपादत्तप्यं तदभ्यच्छिन्नदभ्यवन्द्ययः परिघं पट्युषं शूलं चरमाशिषक्ततोमरौ यद्यदायुधमादत्त तत्सर्वं सोच्छिन्नद्धरिः तथोरथादवप्लुत्य खड्गपाळे जिघांशया कृष्णमभ्य द्रुवत्क्रुद्ध पतङ्गाय पावकम् तस्य चापतत खड्गं तिलससश्चर्म तेषुभि छिद्वा सीमाददे तिग्मं रुक्मिण्यं हन्तुमुद्यतः दृष्ट्वा पतित्वा पादयोर्भर्तु वाच करुणं सती योगेश्वरा प्रमेयात्मन् देवदेव जगद्मते हन्तुं नार्हसि कल्याणभ्रातरं मे महाभुज